किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप पुराकथयतां नूनं न श्रुतं धर्मवादिनाम् आत्मनिन्दात्मपूजा च परनिन्दापरस्तवः अनाचरितमार्याणां वृत्तमेतच्चतुर्विधं यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः केशवन्तच्च ते भीष्म न कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि समावेशयसे सर्वं जगत् केवल काम्यया अथ चैषान ते बुद्धिः प्रकृतिम् याति भारत मयैव कथितम् पूर्वम् भूलिङ्गशकुनिर्यथा भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे भीष्मतस्या सदावाच सदा वाच श्रूयन्तेऽर्थविगर्हिताः